ष्टके द्वितीयः प्रश्नः प्रजापतिरकामेत प्रजासृजे स एतन्दशः तारमपश्यतृत्येत प्रजा असृजता साष्टा अपा ग्रामन् तथा ग्रहेणागृह्णात् तद्ग्रहस्य ग्रहत्वम् यः कामयेदप्रजा सदृशे प्रजापतिरे भूत्वा प्रजायते मनसा जुहोति मनैव प्रजापतिः प्रजापतैराप्र्णया जुहौति पूर्णैव प्रजापतिः प्रजापतैराप्ति न्यूनया जुहोति न्यूनाद्य प्रजानागम् सृष्टैः एतस्माद्जापतिप्रजा असृजता यस्मादेव योने प्रजापतिप्रजा असृजता तस्मादेव योने प्रजायते ब्राह्मणो दिक्षित उपास्ते ब्राह्मणोऽपि प्रजानामुपदृष्टायते धृती ब्राह्मणम् विद्याम् सञ्जशो न चेत् सौरण्यम् भरेत्य दर्भस्तम्भमुस्य ब्राह्मणम् दक्षिणतो विषाद्य देवानातुर्होदारः तदेव प्रकाशम् गमयति तदेन प्रकाशम् गतम् प्रकाशम् प्रजानाम् गमयति दर्भस्तम्भमुत्सव्यादिष्टेवा दर्भस्तम्भः अग्निवत्येव व्यादिष्टे ब्राह्मणो दक्षिणतो उपासे ब्राह्मणो वै प्रजानामुपदृष्टा क्ष्यन्तु ी स्वप्राणमेवेन यावत्प्राणाः यावदेवास्यास्ति तदभिचरति स्वकृतरवाः निरुगृहीतम् ृजदाक्रामताम्नाद्ग्रहस्य ग्रहत्वम्पौर्णमासा वालभमानः चतुर्हाये त्वम् चातुर्मास्यान्यालभमानः षावश्यत् तम्त्याः ततोऽपि स पशुबन्धमसृजता सोऽस्मात् सृष्टोपामत सङ्ग्रहेणागन्नात् तद्ग्रहस्य ग्रहत्वम् पशुबन्धेन यक्षमाणः ृत्यै सौम्यो दारमश्यतृत्याहुहो सौम्यमद्धर्म सृजता सोऽस्मात् सृष्टाक्रामद सङ्ग्रहेनागृह्णात् सद्ग्रहस्य गृहत्वम् वीक्षिष्यमाणः ृष्ट्वारभ्यते प्रभव भवति यज्ञस्य प्रभो भवति एषः प्रजाप्रजा एष्टेवाकः प्रजानाम् प्रजनायस्व्यादिष्टे एतत् आयतनेव कल्पयति प्रजापृदृकामयदप्रजा ये सर्वोताम् परपक्षम् देवान्वसृज्यन्त ्यादिति अमरपक्षेयानेव भवति तस्मात् पूर्वपक्षोपरपक्षात् प्रजापतिर्पयदशहोदा चतुर्होदा पञ्चहोदा षट्होदा सप्तहोदावत्सरः प्रजा स्पशर इमे लोकाः एवम् एवमिन्द्रञ्जनयध्वमिति हेदपोदप्यन्तात्मनिन्द्रमपश्यन् अवन् सोऽवत्सरम् प्रजाः पुशोन् ीरोयते वीरगोहि देवा एतया हत्या प्राजनयन् आत्याङ्ग्रहस्ये लोके स्पर्धन्ता न्न स पस्था ख्यातम् दिया। गच्छति वा एष श्रुताष्ठितः एवमेतद्विश्रितम् प्रतिष्ठितम् वेद एतन्दश होतारमवश्यश दशहोत्रादप्यदा तस्य चित्तस्पृगासीत चित्तमाद्यम् तस्यैतावत्येव वागासीत एतावानुयज्ञक्रुतोः सचतुरहोतारमसृजता सोऽन्दत असृक्षपाह्वमिति तस्य सोमोहभिरासीत स चतुर्होत्रादप्यदा सोऽ्यत स भो व्याहरद स भोमिमसृजता ृ एतावी व्याहृदय इमे लोकाः सर्वे लोकान्ता एवमेता प्रजापदयमा व्याहृते प्रजातापेदा सदेवानुसृजत तस्य प्रियमासीत् तत्सवर्णघोरण्यमभवत् तत् सुवर्णस्य जन्म सुवर्णस्य जन्मवर्ण आत्मना भवति सुर्वप्रियम्भ्यो प्राणि प्रत्यगच्छत एकवृंशेन सत्सेन प्राजायता त्यः प्रजापति प्रजापतिमेव प्रजाहाति देवावैवर्णयाजयन्नेवतायै दक्षिणा क्षिणे हिरण्यमित्याह आज्ञेयम् वै हिरण्यम् सयैवेनेवतया प्रतिगृह्णाति सोमायवासीत्याम् वैवासः स्वयैवेनेवतया प्रतिगृह्णाति रुद्रा एकाविद्याः रौद्रीवेगो स्वयैवैना देवतया प्रतिगृह्णादि वरुणायाश्वमित्याह अरुणो वा प्रजापतय पुरुषमित्याह प्रजापत्यो वै पुरुषः स्वयैवैनम् देवतया प्रतिगृह्णादित्याहवैदल्पः स्वयवैनम् देवतया प्रतिगृह्णादि अन एवेन प्रतिगृह्णाति वैश्वानर्यत्यार्थम् प्रतिगृह्णाति वैश्वानरो देवत देवत वै देवतयार्थः स एवम् देवतया प्रतिगृह्णादि तेनामृतत्वमस्यामित्याह मृतमेवात्मम् धत्ते यो दात्रैत्याह येन वृत्ता स्वर्गल्लाकङ्गमैली वयो वश्यवस्तुप्रतिगृहीत्रैत्याह यत्मै शिवम् तन्मयः आत्मन एवैषा परियेदङ्गस्मादादित्याह प्रजापतिर्वेकः स प्रजापते प्रतिगृह्णातिगृह्णामीत्याह येन कामेन प्रतिगृह्णाति स एवममुष्मिल्लोके कामः आगच्छति कामैतत्र एषा ते कामदक्षिणेत्याह काम एव तद्यजमानोलोके दक्षिणामिच्छति न परिगृहीतति एवम् वित्तान् दक्षिणाम् प्रतिगृह्णाति अनुनामेवैनाम् प्रतिगृह्णाति वा एषे इत्यस्य ीवान्तम् अन्नाद्यमवर्धते लोकाः एक एव लोकेभ्यो अन्नाद्यवर्धते वृष्ट्यवदे भवन्ति अन्नम् वै वृष्णि अन्नमेवावृन्धते मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरतिः अस्यामेव प्रतिष्ठन्ति चतुर् एष यज्ञस्य द्रोण्यादिष्टे यज्ञस्यैवान्तम् गत्वा हरमम् देवानाङ्गुष्यम् ब्रह्मा ब्रन्थे देव प्रकाशम् गमयति नदुर्यदेवत्याः रात्रिम् ध्यायेत् भादुर्यस्यैव तल्लोकम् वृन्दे यद्योच्छिकुम् चेत् भ्रातुर्यायोच्छ्युकुम् चेत् अतिवृक्षसूर्यवाचति एतावन्तमेवास्मै लो लोकमुच्छिंशति का रूपेणानुप्राविशत् तस्मादाहो रूपम् वै प्रजापथिति तानाम्ना नप्राविशत् तस्मादाहो वै प्रजापथि तस्मादत्या मित्रौ संयुक्त्या आम् नाचे तम् दृष्टग् न प्रादिशतशोस्ता येनोदय्यासुरानभ्यभवद्रातव्यान् भवति ैर्वित्या स्वर्गम् लोकमायिन्न हेक्षुध्यन् हे हे ब्रुवन्दानम् यज्ञम्प्राहिन्वन् एतेनामुत्र कल्पयेति तस्य वा इयम् वृत्तिः किञ्च न एवम् वेदा कल्पदेस्मै सा इयम् मनुष्येषु यज्ञप्तहोता अमुत्र सद्भ्यो देवेभ्यो हव्यम्वति एवम् वेद भिकामयन्ते पुत्रो हि हृदयम् देवावेद्रयज्ञमधन्वतायन्तायन्न एवम् दुरते लोकञ्जयति षड् यमासाधयति भुष्मेवै लोकायुष्वम्भन्ति लोकङ्गमयति चतुर्होत्रादिथ्यम् पिशोऽ चतुर्होता पिश एवात्मम् दत्ते पञ्चहोत्रा पशुमुपसाधयति वै पञ्चहोता त्यजमाणः पशुः त्यजमानमेवर्गम् लोकङ्गवयति ै सप्तत्तेनम् तर्पयति कृप्यधि प्रजयाः उपयेन गोसामपीथमैश्वमाने दशहारम् व्याचक्षीतारम् आर्धवेपमाने पञ्चारम् अनुसारमेवैनागुस्तर्प्यति कृप्यधिप्रजया पृषभिः उपयन गोसामबीधानमदि देवा वे चतुर्हो द्रविः सत्यमासता मध्यपरिमितम् विषस्कामाः तेः ब्रुवन्नः प्रथमेश अध्यात् सर्वेषा नस्तत्सहासदिमश्चित्रहोत्रा अग्निः पञ्चहोत्रा धाताशुद्धा होत्रा इन्द्रः सप्तहोत्रा प्रजावृतदशहोत्रा तेषा भगवराजानन्दषार्च्यकामयत केनापाः क्रामद येन प्रलाहिमचरदेवन् तत्प्रैशानाहाषत्वम् न्यवेदयन् तन्निविदान्निवित्तम् आप्रेऽभिराप्नुवन् ताप्रीणामाप्नुत्वम्बता ते ग्रहाभवन्ते ब्रुवन् यो वेन श्रेष्ठ इति थ्छन्दो भृतवन्तस्त्वम् साम्नासमानयन् तत्सामस्यामत्वम् उत्थे हृदस्थापयन् तदुत्थानामुख्यत्वम् य एवम् वेदा प्रत्येव तिष्ठति सर्वमाविरेति स्वमो वैशः यम् य एवमुच्छति तस्मादाहो यश्चैवम् वेद यश्च नो सोममागच्छतः स्वमोहेशः तन्द्वावेषतीत्याहो यस्वमे सोमम्प्राहेति तस्मात् सोमे एवैन मृच्छति इदम् वाग्रेणैव किञ्जनासीहीतौराम् तदस देवसन्मनागुरु दस्यामिति तदलप्यत तस्मात् ते बाणाद्धोमो जायत तद्धोयो लप्यत तस्माते बानादग्निरजायत तद्धूयोलप्यत तस्मात् ते बानाज्योतिरजायत तद्धूयोलप्यत तस्मात् ते बानादर्चिरजायत तद्धूयो लप्यत तस्मात् ते पानान् मरीचयो जायन्द तद्भूयोदप्यत तस्मात् ते पानादुरा अजायन्द तद्भूयोप्यमुद्राभवत् तस्मात् समुद्रस्य न पिबन्दि रजन्यन्ते तस्मात्कृशाजायमानादावस्तादृश होदान्वय्यता प्रजापतिर्भेदश होदानन्दपु सौ वीर्यम् वित्वा विस्तप्यते इति साष्टरिक्षमदमुष्टोरादीस्वम् एवम् वेदास्य एतद्वा एषा लोकानाम् जन्म एवमेन्मवेदोकेष्वार्थिमाक्षदि सैमाम् प्रतिष्ठामविन्ददा सैमाम् प्रतिष्ठाम् दृत्वा कामयदप्रजायी सर्वोऽपाहदा सा दुरा भवत सा ज्योत्स्ना भवत् सकामैदप्रजा योदप्यदा सोऽ क्षाभ्यामेवत्तो न सजतासीहीत सोऽयि सोऽवानभवद समुखा देवान् सृजता हेभ्यो हरिदेपात्रे सामद यास्यसीहीत तामबाहदा तदहरभवत् ताम हे देवै दे प्रजापदेतों वेद स एव प्रजाः देवत्वम् एवम् देवानाम् देवत्वम् वेदेव भवति एतत्माहोरात्रानाम् जन्म एवमहोराहोरात्रेष्वाक्षति अतोऽधिमनोज्यत मनः प्रजापतिमसुजत प्रजापतिप्रजा असुजत तद्वा इदम् मनस्येव परमम् प्रतिष्ठितम् यदि तदेतत्स्वस्य सन्नाम ब्रह्म एवम् देवानाम्हि ए अवोचन् इति अथवा एतन्मे प्रयच्छ अथाहमेतेषाम् देवानामधिपदविष्यामीति को हगस्यावित्येति एतत्स्याहित्यब्रवीद एतत्प्रवेशेति को हवे नाम प्रजापतिः एवम् वेदनाम्ना तस्मै रुक्मम् कृत्वा प्रत्यमञ्जर ततो वा इन्द्रो देवाना एवं वेदाधिपजरे अकरमिति स चन्द्रे यत्प्रारभत तच्चवदश्चेद चन्द्रवानेव भवति तन्देवाब्रुवन्नमर्यायथा गोपायत इति वेदा नैनन्दप्नोति कश्चनास्मिन् वा इदमिन्द्रियम् प्रचरस्थादिति न्द्रस्यन्द्रत्वम् एवम् वेद इन्द्रियाव्येव भवति अयम् वा, वा इदम् परमो बोधिति तत्परमेष्विनः परमेष्ठित्वम् एवम् वेद परमामेव काष्ठाङ्गच्छति देवास्वन्दम् पर्यः पुरस्तात् रुद्रादक्षितः आदित्या स्पश्चात् विश्वे देवा उत्तरतः अङ्गिरः प्रत्यञ्जम् वैदगो समानाः संविशन्ति स प्रजा आवयद ताः स्मैनातिष्ठन्धानात् पश्यन्तीः दक्षतः पर्यायन्न तदक्षितः पर्यवर्तयदा तामुखम् पुरस्तात् पश्यन्तीः मुखम् दक्षिणतः पश्चात्पर्यायन्न स्यात्पर्यवर्तयदा तामुखम् पुरस्तात् पश्यन्तीः मुखम् दक्षिणतः मुखम् पश्चात् ततः पर्यायन्न सर्वत्रवर्तयदा पुरस्तात् पश्यन्तीतः पश्चात् स उपरि वैदस्मै प्रजातिष्ठन्तान्नाद्याय एवम् विद्वान् परिचवर्तये तेन च प्रजापतिरेव भूत्वा प्रजावत्ति तिष्ठन्तेऽस्मि प्रजा अन्नाद्याय अन्नाद एव भवति प्रजापतिरकामैतभोर्भूयाहम् स्यामिति ुञ्जितार निरीता तम्प्रायुङ्का तस्य प्रयुक्तिन्द्रो जायता यः कामयेद वीरो महाजायति सह प्रयुञ्जिता हास्य वीरो जायते स्वकामेतपुमान् स्वामिति युङ्का तस्य प्रयुक् पुष्मानभव यः कामयेत्पशुमान् सपञ्च होदारम्भ्रिञ्जीत पुष्मानेव भवति स्वकामये दत्तवो मे कल्पेरण्यति सपञ्च होदारण्यरमितायुङ्कस्य प्रयुक्तो मे कल्पेरण्यतिभ्रिञ्जीत कल्पन्ते स्मायसो आमे कामे सोमपस्ति याजीजाति सप्तहोदारम्बञ्जीत सोमप एव सोमयाजी भवति स एष पशुपम् यथा प्रतिष्ठति अध्यर्मुखेन ए ए ये देवा पशो न कृत्वा स्वर्गम् लोकमायन् ते व्यक्षन् ते ब्रुवन् एते नामुत्र कल्पयेति तस्य वा इयम् लुप्तिः च एवम् वेद कल्पदेऽस्मै स वा इयम् मनुष्येषु यज्ञः सत्त्वसत्यो देवेभ्यो हव्यम् वहति एवम् वेदानवति े चतुर्होदृणाम् निदानम् एवम् वेदा निदानवान् भवति इति द्वितीयाष्टके द्वितीयः प्रश्नः